भागवत भागवत पंचमो श्रीमद्भागवत्राणम्भागवत महात् पंचमोध्याय सुवाच पीत पर जननीताड़िता भृशं क्षति तद्वाक्य सत्रासा तद्वाक्यसा जननियादुखता कूपे पातः कृतो रात्रौ तेन सा निधनं गता गोकर्णस्तीर्थयात्रार्थं निर्गतो योगसंस्थितः न दुःखं तस्य न वैरिनापि बान्धवः धुन्धुकारी गृहेति सन् पञ्चपत्पण्यवधूवृतः अत्युग्रकर्मकर्ता च तत्पोषणविमूढधीम् एकदा कुलटास्तास्तु धूषणान्यभिलिप्सवः तदर्थं निर्गतो गेहात् कामान्धो मृत्युमस्मरन् यतस्ततस्य संहृत्य वित्तं वेश्म पुनर्गतः ताभ्यो यच्छन्तु वस्त्राणि भूषणानि क्रियन्ति च बहुवित्तचयं दृष्ट्वा रात्रौ नार्योन् व्यचारयन् चौर्यं करोष्यन्त्यसौ नित्यम् अतो राजा गृहीष्यते वित्तं हृत्वा पुनश्चैनं मारयिष्यति निश्चितम् अतोऽर्थगुप्तये मूढम् अस्माभिः किं न हन्यते निहत्यैनं गृहीत्वार्थं यस्यामो यत्र कुत्रचिता निश्चयं कृत्वा सुप्तं सम्बद्धिरश्मिभिं पाशं कण्ठे निधायास्य तन्मृत्युमुपचक्रमुः धरितं न ममारासौ चिन्तायुक्तास्तदाभवन् तप्ताङ्गरसम्मूहाश्च तन्मुखे हि विचिक्षिपुः अग्निज्वालातिदुःखेन व्याकुलो निधनं गतः तं देहं मुचुर्गरते प्रायः साहसिकाश्रियः न ज्ञातं तद् रहस्यं तु तथैव च लोकैः प्रेष्टा स्म दूरं जातप्रियोहिनः आगमिष्यति वर्षेऽस्मिन् वित्तलोभविकर्षितः स्त्रीणां नैव तु विश्वासः दुष्टानां कार्येऽद्बुधः विश्वासे यः स्थितो मूढः स दुःखै परिभूयते सुधामयं वचो यासां कामिनां रसवर्धनं हृदयं चिरधाराभं प्रियः को नाम योषितां संहृत्य वित्तं तायाताः कुलटा धुन्धुकारी बहुवाथ महान् प्रेत कुकर्मतः वात्यारूपधरो नित्यं धावन् दशदिशोऽन्तरं सीतातपं परिक्लिष्टो निराहारपिपाशितः नलिभीषरणं क्वापी हा दैवेति मुहुर्वदन् कियत्कालेन गोकर्णोऽ मृतं लोकादबुध्यत अनाथं तं विदित्वैव गया श्राद्धमचीरकमचीकरत् यस्मिन् तीर्थे तु संयाति तत्र श्राद्धमवर्तयत् एवं भ्रमन् स गोकर्णः स्वपुरं समुपेयिवान् रात्रौ गृहाङ्गळे स्वप्तुम् आगतो लक्षतः परैह तत्र सुप्तं सविज्ञाय धुन्धकारी सबान्धवं निशीथे दर्शयामास महारौद्रतरं वपुः सन् सकृन्मे स सकृद्धस्ति सकृच्च महिषोऽभवन् सकृद् इन्द्र सकृत्याग्निपुनश्च पुरुषोऽभवत् वैपरीत्यमिदं दृष्ट्वा गोकर्णो धैर्यसंयुतः यं दुर्गतिकः कोऽपि निश्चित्याथ तमब्रवी गोकर्णुवाच कस्त्वं मुग्रतरो रात्रौ कुतो यातो दशामि वा प्रेतपि साचो वा राक्षसोऽसीति संसनः असक्तो वचनोच्चारे संज्ञामात्रं चकारः ततो जलौ जलं कृत्वा गोकर्णस्तमुदैरयन् तस्यै कहत पापोऽसौत्रवक्तुमुपचक्रमे प्रेतुवाच अहं भ्राता धुन्धुकारिति धुन्धुकारीति नामतः स्वकीयेनैव दोषेण ब्रह्मत्वं ना नाशिनं कर्मणो नास्ति संख्यामे महाज्ञाने विवर्तिनः लोकानां हिंसकसोहं स्त्रीदुःखेन मार्तः अत प्रेतत्वमापन्नो दुर्दशां च वहाम्यहं वाताहारेण जीवामि दैवाधीनफलोदयात् अहो बन्धो कृपासिन्धो भ्रातर्मामासुमोचय गोकर्णो वचनं श्रुत्वा तस्मै वाक्यम् अथा ब्रवी गोकर्णोवाच तदर्थं तु गयापिण्डो मया दत्तो विधानतः तत्कथं नैव मुक्तोऽसि ममाश्चर्यमिदं महत् गया श्राद्धान्नमुक्तिश्चेद् उपायो न परस्विह किं मया प्रेत तत्त्वं वद सविस्तरम्